उज्वलवर्णगरवरदेहं विलसित निरवधे भावविदेहं त्रिभुवनपावन करुणादेशं त्रिभुवनपावन करुणादेशं तं करुणा प्रणमामि चेतनयं तं प्रणमामि श्री सचेतनयम् गदगदयन्तर् भावविकारं दुर्जन तर्जन नादविलासं भवभयभञ्जन कारणकरुणम् भयभञ्जनकारणकरुणं तं प्रणमामि श्रीसचेतनयं तं प्रणमामि श्रीसचेतनयम् अरुणाम्बरधर चारुकपोलं इन्दुविनिन्दितनखजयरुचिरम् जल्पत् निजगुण नाम विनोदं जल्पत निजगुणं नाम विनोदं तं प्रणमामि श्री सचेतनयं तं प्रणमामि श्री सचेतनयं भूषणवरस भूषणवरस भावविकारं गति अतिमन्थर् नित्यरासं गतिमन्थर् नित्यविरासं तं प्रणमामि श्रीसचितनयम् प्रणवामी शीसचितनयं चञ्चलचारुचरणगतिरुचिरं मञ्जिरञ्जितपदयुगमधुरं चन्द्रविनिन्दित शीतलवदनं चन्द्रविनिन्दित शीतलवदनं तं प्रणमानि श्रीसचेतनयं तं प्रणमानि श्रीसचेतनयं धितकटिडोरकमण्डलुदण्डं दिव्यकरे वरवीतमण्डम् दुर्जनकलमश खण्डनदण्डं दुर्जनकल्मश्च खण्डनदण्डं तं प्रणमामि श्री सचिनयं तं प्रणमामि श्री सचिनयं भूषण भूरज भूरज हर पावलितं कम्पितबिम्बाधर वररुचिरं मलयज विरचित उज्ज्वल तिलकं मलय मलयज विरचित उज्ज्वल तिलकं संप्रणमामि श्रीसचितनयम् तं प्रणवामि श्रीसचितनयम् निन्दित अरुणकमदनयनम् आजानुलं वेतश्रीभुजयुगलं कलेवरकिशोर नर्तकवेशं कलेवरकिशोर नर्तकवेशं तं प्रणवामि श्री सचेतनं तं प्रणवामि श्री सचेतनयं तं प्रणवामि श्री सचिनम्